हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायण युद्धकाण्डे त्रिचत्वारिन्श स्वर्गः द्वन्द्वयुद्धे वानरे रक्षतां पराजयः युद्धतां तु तदेषां वानराणां महात्मनां रक्षतां सम्बूवत् बलदोष सुवरुणः ते हये काञ्चना पीडै गजैश्चाग्ने शिखोपमये रथैश्चादित्यसङ्काशये कवचैश्च मनोरमये निर्ययो राक्षसा वीरा नादयन्तो दिशो दश राक्षसा भीमकर्माणो रावणस्य जयै शिणः वानराणामपि च मौ बृहति अभ्यधावत तां तेषाम् रक्षसाम् घोरकर्मणाम् एतस्मिन्नन्तरे तेषाम् अन्योन्यम् अभिधावताम् रक्षसां वानराणाम् च दन्तयुद्धम् अवर्तत अङ्गदेनेन्द्रजित् साधम् वालिपुत्रेण रक्षस अयुध्यत मरतेजा च्यम्बकेन प्रयङ्घेन च सम्पाते नित्यं दुर्धर्षणो रणे जम्बुमालीनमारब्धो हनुमन् पिवानरः सङ्गतस्तु महाक्रोधो राक्षसो रावणानुजः समरे तीक्ष्णवेगेन शत्रुघ्नेन विभीषणः सपनेन गजशासम् राक्षसेन महबलः निकुम्भेन महतेजा नीलोपी समयुध्यते मानवेन्द्रग्रीव प्रहतेन सुसङ्गतः सङ्गतः समरे श्रीमान् विरूपाक्षेण लक्ष्मण अग्निकेतु सुदूर्धर्षु रश्मिकेतु च रक्षसः सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गतः वज्रमुष्टे च मैन्देन द्विविधे नाशनिप्रभ राक्षसाभ्याम् सुघोराभ्याम् कविमुख्यौ समागतौ वीरप्रतः पनो घोरो राक्षसूरणदुर्धरः समरे तीक्ष्णवेगेन नलेन समयुज्यते धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः सविद्युन्मालिनः सार्धम् अयोध्य स चापरे घोरा राक्षसे अपरे सह द्वन्द्मेयु स युद्ध्वा च बहुभि सह तत्रासी सुमहद्युद्धम् तुमुलम् रोम क्षणम् रक्षतां वानराणां च वीराणां जयमिच्छताम् हरि राक्षस प्रभूता केशशाद्वल शरीरसङ्घाटवः प्रसुश्रु शोणितापगः आजगः नेन्द्रजित् क्रुद्ध वज्रेणैव चतक्रतु अङ्गदम् गदय वीरम् शत्रुसैन्य विधारणम् तस्य काञ्चन चित्राम् रथम् शाश्वम् ससारथिम् जघन गदय श्रीमान् अङ्गदो वेगवान हरिः संपातिस्तु प्रजङ्घेन त्रिभिः समर्हतः निजघाना स्वकर्णेन प्रयघ्नम् ऋणमूर्दने रतस्तस्तु रथस्तस्तु रथचक्य महबलिभेद समरे क्रुद्धो हनुमन्तं स्तनान्तरे तस्य तं रथमास्थाय हनुमारुतात्मज प्रममाथ तलेनाशु सह तेनैव रक्षत नलं प्रतपनो घोरो नलं शोभ्य अनुधावत् नलप्रतपनस्याशु पातयामास चक्षुषे भिन्न गात्र शरी तीक्ष्णैः क्षिप्रहस्तेन रक्षत जसन्तम् इव सैन्यानि प्रघसं वानराधिपये सुग्रीव सप्त पर्णेन निजघायेन जवेन च प्रपीड्य शरवर्षेण राक्षसम् भीमदर्शनम् निजघनः विरूपाक्षम् शरेणैकेन लक्ष्मणः अग्निकेतु च दुर्दर्शो रश्मिकेतु च राक्षसः सुप्त गुणो यज्ञकोपश्च राम निर्विभिदुश्चरैः तेषां चतुर्णां रामस्तु शिरांसि समरे शरी क्रुद्धचतुर्भिषिच्छेद घोरै अग्नेशिकोपमये वज्रमुष्टिः सुमन्देन मुष्टिनान्य तोरणे पपात स रथशाश्व सुराट्ट इव भूतले निकुम्भस्तोरणे नीलम् नीलाञ्जन च यप्रभम् निर्भिभेद चरै तीक्ष्णैः करै मेघम् इवांशुमयन् पुनश्चर च तेनाथ क्षिप्रहस्तो निशाचर बिभेद समरे नीलम् निकुम्भ प्रजहस च तथैव रथचक्रेण नीलो विष्णुरिवाहवे शिश्चिछेद निकुंभ से सारथे वज्रशनी सश दिव्याशन प्रभम जघन गिरीशृंगेण विशताक्षतांद्रं तो द्रमोधीन मे शरशनी संगाषे सव्याशन प्रभ स्वशरीरपि विधाङ्गो द्विविध क्रोधमूर्छितः श्वालेन स रथम् शाश्वम् विद्युन्माले रथस्तस्थु शरैकाञ्चन भूषणैः सुषेणम् ताडयामास ननाद च मुहुर्मुहुः तं रथस्थम् अथो धृष्ट्वा सुचेणो वा गिरिशृङ्गेण महता रथमाशु निपातयत् लाघवेन तु संयुक्तो विद्युन्मालिनिशाचरः अपक्रम्य रथातूर्णम् गदापाणि क्षितो स्थितः ततः क्रोधः समाविष्ट सुषेणो हरिपुङ्गवः शिलांसु महतीं अभिद्रवत् तम् आपतन्तम् गदय विद्युन्मालिनि साचर पक्षस्य बीजगानाशु सुषेणम् हरिपुङ्गवम् गदाप्रारम् तम् घोरम् अचिन्त्य प्लवगोत्तमः तां तूष्णीम् पातयामास तस्य उरसि महामृगे शिलाप्रहाराभियतौ निष्पीठ्य हृदयो गुमौ गतासुर निपपातः एवं तै वानरै शूरै शूरास्ते रजनी चरः द्वन्द्वे विमाथिता तत्र दैत्या इव दिवोकसै बल्लै चान्ये गदाभिश्च शक्ति त्वमरसायकै अपविद्धैः चापि रथै तथा संग्रामिकै हयै नियते कुञ्जरे मत्तै तथा वा न राक्षसै चक्राक्षयुगदण्डै च भग्नै धरणि संश्रितै बभुवायोधनं घोरं गो मायुगुणसेवितं कबन्धानी समुत्पेतु दिक्षु वानर राक्षसा विमर्दे तु मुले तस्मिन् देवासूरो वृणोपमे निहन्यमान रिपुङ्गोणितगन्ध मूर्छिताय पुनः सुयुद्धं तरसा समाचरिताय दिवाकरस्यास्तमयाभि कङ्किण्य इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे त्रिचत्वारिंश सर्ग श्री सीतारामचन्द्रार्वमस्तु